परिष्वज्य च गान्धारी कृष्णाम् कमललोचनाम् पुत्राणाम् मम पाञ्चाली मृत्युरेवेत्यमन्यत सा चिन्त्यविदुरम् प्राह युक्तितः सुबलात्मजा गान्धार्युवाच कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम् पाण्डोर्निवेशनम् शीघ्रम् नीयतां यदि रोचते करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ यथा सुखम् तथा कुन्ती रंस्यते स्वगृहे सुतैः वैशंपायन उवाच तथेत्येव तदा क्षत्ता कारयामासतत्तदा पूजयामासुरत्यर्थे बान्धवाः पाण्डवांस्तदा नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान् भीष्मो द्रोणस्तथा कर्णो वाल्लीकः ससुतस्तदा शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम् एवं विहरताम् तेषाम् पाण्डवानाम् महात्मनाम् नेता सर्वस्य कार्यस्य विदुरो राजशासनात् विश्रान्तास्ते महात्मानः कञ्चित्कालम् महाबलाः आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च धृतराष्ट्र उवाच भ्रातृभिः सह कौन्तेय निबोध गदतो मम पाण्डुना वर्धितं राज्यं पाण्डुना पालितम् जगत् शासनान्मम कौन्तेय मम भ्राता महाबलः कृतवान् दुष्करं कर्म नित्यमेव विशाम्पते तस्मात् त्वमपि कौन्तेय शासनम् कुरु माचिरम् मम पुत्रा दुरात्मानो दर्पंकार संयुता न क्य मम निम युधिष्ठि स्व्यरतर्त्यमिप्तुरात्मो विग्रहो मूथत्स्थमाश